गणेशपञ्चरत्नम् उदकरतमोदकं सदा विमुक्तिसाधकम् कलाधरावतंसकम् विलासिलोकरक्षकम् अनायकैकनायकम् विनाशिते भदैत्यकम् लताशुभाशुनाशकम् मानायकम् न तेतरादिभीकरं न बोदितार्कभास्वरं न मत्सुरारिनिर्जरं न ताधिकापदुद्धरम् सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् महेश्वरं तमाश्रये परात्परं निरन्तरम् समस्तलोकशङ्करं निरस्तदैर्घ्यकुञ्जरं तरे तरोदरं वरं वरे कृपाकरं क्षमाकरं मुदाकरं यशस्करं। नमस्कृतां नमस्करोमि भास्वरम् अकिञ्जनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारि पूर्वनन्दनं सुरारिगर्वचर्वणम् प्रपञ्चनाशभीषणं धनञ्जयादिभूषणम् नवारणम् अजे पुराणवारणम् नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम् अचिं च रूपमन्तहीनमन्तराय कन्दनम् निरन्तरं वसन्तमेव योगिनाम् मेकदं तमेव तं विचिन्तयामि सन्ततम् महागणेशपञ्चरत्नमादरेण योऽहं प्रजल्पति प्रभातके हृदि स्मरन् परोगतामदोषतं सुसाहितिं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति शोचिरा श्रीगणेशपञ्चरत्नं सम्पूर्णम्